मुद्गलपुराणं खण्डम् एय्ट् धूम्रवर्णचरितम् अध्यायं टेन् शिवात्मकावतारचरितं श्रीगणेशाय नमः सनकाद्या ऊचुः धूम्रवर्णावतारस्य भेदानानाविधा स्मृताः वदतेषु विभो मुख्यां चरित्रसंयुधान् परान् धूम्रवर्णचरित्रं तु श्रुत्वा यामो न तृप्तिकाम् अहङ्कारहरम् पूर्णं ज्ञात्वा त्वत्तो जगद्गुरो श्रीशिव उवाच धूम्रवर्णावतारस्य वेदानां चरिदम्परम् कथितुं नैव शक्यं तन्मुख्यानां मुनिसत्तमाः मुख्येषु मुख्यभूतानां चरित्रं लेशतः कथयामि शृणुध्वं यत् निश्चलेन तद् सहजं यत्पदं प्रोक्तं नेदिरूपं मुनीश्वराः तेन सृष्ठं समाख्यं हि ब्रह्म त्वानन्दवाचकं तेन सत्यानृते सृष्टे ताभ्यामुद्धानसंयुधे विप्रेष्या ब्रह्मणि सृष्टे ते स्वतःपरदोऽभिदे तेन देहिमयं देहप्रचुरं ब्रह्म वै तदः बिन्दुतेनैव संसृष्टम् चतुर्देहमयं परं स्तोलं सूक्ष्मं समं नादं तैःसृष्ठं विश्वरूपकं नानाभेदमयं तस्माद् व्यष्टिरूपं मुनीश्वराः एतानि ब्रह्मरूपाणि क्युत्पन्नानि महर्षयः ज्ञानहीनान्यक्षमाणि सर्वधकार्यजादिषु ततस्तैश्च तपस्तप्तं यस्मै कस्मै नमो नमः बीजरूपाणि सर्वेषां मन्त्रं जत्वा निरन्तरं ततो वर्षशदे पूर्णे प्रसन्नो भूद्गजाननः दर्शयामासरूपं स्वं तेभ्यो मन्त्रमयं परं तदस्तत्कृपया तानि ददृश्यस्वहृदि स्थितं मन्त्रमेकाक्षरं तेजो युक्तं ज्ञानकरं परं दृष्ट्वा मन्त्रं प्रपृष्टानि ब्रह्माणि नेमुरादराद मन्त्रं सङ्गृह्य तम्भुवं ध्यात्वा हृदि गजाननं मन्त्राकारं गणेशानं ध्यात्वा ते पुः पुराणिदु तोषयामासुरत्यन्तं श्रमयुक्तानि विघ्नवं दिव्यवर्षसहस्रेण प्रसन्नोऽभूद्गजाननः दर्शयामासरूपं स्वं योगिभ्येयमनुत्तमं नरकुञ्जररूपं तु दृष्ट्वा हृदि विसिस्मिरे ब्रह्माणि वै डुण्ढिर्ददौ ज्ञानं सुनिर्मलं तेन तैर्गणराजस्य ज्ञातं रूपं विशेषतः सगुणनिर्गुणाभ्यां च युक्तं योगमयं परम् तदोदिहर्षयुक्तानि जातानि मुनिसप्तमाः नित्यं ब्रह्माणि विघ्नेशं ध्यात्वा जपं समाचरन् तदो गणपतिः प्रीदो यय उक्तानि शिवरूपधरो भूत्वा पञ्चवक्त्रस्त्रिलोचनः मुंडमालाधर शंभुर्व्याख्रेफ चर्मारक विभूतिलेप सर्वांगे शेष नाग विभूषण वृषध वृषारूढ़्रचूडस्त्रिशूलदृक अर्धाङ्गे गिरिजायुक्तो योगीन्द्रो योगिवन्दितः समागदं महेशानं दृष्ट्वा ब्रह्माणि ब्राह्मणाः विस्मितानि विशेषेण विचारं चक्रुरादराद गणेशकृपया सद्यो तै सकलं महः शिवस्य हृदि परस्परमदाब्रुवन् स्वमहिं निस्थितं ब्रह्मसहजं गणपाकृतिवर्णा धूम्रायुतास्तत्र तेन धूम्राक्षरस्मृतः तस्य बिम्बं विमोहेन पतितं माययायुधं जगत्सुब्रह्म सुप्राज्ञं तदेवायं वृषध्वजः बिम्बबिम्बिप्रभावेण धूम्रवर्णोऽयमुच्यते नभेद भेदशास्त्रवादेषु वरधः प्रभविष्यति ततस्तानि समुद्धाय ब्रह्माणि गणपं पुनः प्रणम्य हृदि संस्तं तं शिवं नेमुर्विशेषदः सम्भूज्य विधिना प्रकृष्टानि प्रणम्यज च तुष्टुवो ब्रह्मरूपाण्यानन्दमुख्यानि मानदाः ब्रह्माण्योजुः नमस्ते धूम्रवर्णाय गणेशाकृतिधारिणे बिम्बाय शङ्करायैव शम्भवे नमो नमः अमेय अमेयशक्तये तुभ्यं पार्वतीपदये नमः वृषध्वजाय देवाय सहजाय नमो नमः मायाश्रयाय मायाश्चालकाय परात्मने महेश्वराय पूर्णाय कैरम्बाय नमो नमः जडाजूडधरायैव निर्मोहाय सदाशिव परेशाय त्रिशूलादिधारिणे नमो नमः स्वाधिनाय नमस्तुभ्यं पञ्चवक्त्रधराय च अनाधाय सनाधाय नाधाय नाथरूपिणे परब्रह्मस्वरूपाय ब्रह्मादिपदये नमः गिरीशाय गिरौ शायिंश्चिताभस्माङ्गधारिणे मुण्डमालाधरायैव नमस्ते सर्पभूषण नानाभेदप्रकारेण केलकाय नमो नमः त्वामभागे ह्यसत्याय सत्याय दक्षिणाङ्गके तयोरभेदयोगे चानन्दाय ते नमो नमः समरूपा महामाया देहस्ते नात्र संशयः तस्य आत्मस्वरूपस्त्वमर्ध नारीदृशे नमः यदादृशं महेशानं पश्यामो ब्रह्मरूपिणं सर्वेषां नेधिकर्तारं तेन धन्यानि वै वयं धूम्रवर्णस्त्वमेवेह न भेदो कदा कस्त्वां स्तोतुं समर्थः प्रभो तस्ते नमामहे शिव उवाच एवमुक्त्वा महे शानं ब्रह्माणि नेमुरादराद तान्युवाच प्रकर्षेण शङ्करः करुणानिधिः आदि शम्भुरुवाच ब्रह्माणि यान् वरान् ब्रूद दास्यामि तपसा परम् तुष्टस्तोत्रेण भक्त्या मे संशयो हृदीप्सिदान हृदीप्सितान् वरदोसि वरदोऽसि यदा नाथ तदा ते दे भक्तिमुत्तमां देहि स्मृतिं स्वकार्येषु विद्यारूपां महेश्वर स्वस्वकार्यं तु कृत्वा वै बन्धदं बन्धकारक कुरुष्व बन्धहीनानि सततं योगधारकः श्रीशिव उवाच यद्यत्सम्प्रार्थितं मत्तो भविष्यदि सुखप्रदं भवदां सत्यसङ्कल्पा दुर्लभं किं न सम्भवेद अदुलं बन्धहीनार्थं योगं शृणुदसौख्यदम् तं साध्यबन्धहीनानि भविष्यधनसंशयः सर्वेषां नेदि कर्तारं मां जानीत चतुर्थकं चतुर्णां चैव संयोगे स्वस्वरूपं विदुर्बुधाः तस्मात् च पराधीनं त्रिधा समुत्पन्नं कलां तं जानीद गजाननं स्वस्वरूपमयो ढुण्डिर्मायायुक्तप्रकीर्तिदः चतुर्नां चालकत्वात् संयोगाभ्येदतः प्रभुः अयोगपञ्चभिर्ही न सदा निवृत्तिवाचकः न योगो जगदां तस्य च संयोगायोगयोर्योगे गणेशो योगवाचकः पूर्णशान्तिप्रदः साक्षाद्ब्रह्मभूतो गजाननः गकारस्वस्वरूपाख्यो नकारो योग उच्यते स्वामि तयोर्गणेशानो नरकुञ्चररूपधृक तं भजध्वं विशेषेण तदा शान्तिमवाप्स्यथ सततं बन्धहीनानि भविष्यथ न चान्यथा यथा देशो दृश्यते नैव मानवैः दृश्यमानस्तथाप्येवं धूम्र रोधनभावदः तथा चित्तमयी माया पञ्चथा विविधे रदा तया युक्तान न पश्यन्ति तं देवं वेदसाधनैः वेदवर्णमया प्रोक्ता धूम्रा जाताश्च मायया गणेशानं स्वशिष्येभ्यो धूम्रवर्णमदो जगुः पूर्णशान्तिप्रदं योगं धूम्रवर्णात्मकं परं जानेद योगयुक् वै भजध्वं तं गजाननं कृत्वा स्वस्वस्वभावस्थं कार्यं नानाविधं सदा समर्प्य धूम्रवर्णाय बन्धहीनानि सर्वदा एवमुक्त्वा महादेवस्तत्रैवान्तरधात्तदः ब्रह्माणि तं नमस्कृत्य ससृजुर्विविधं जगत् यथोपदिष्टयोगेन गणेशं नित्यमादराद भजन्ते तानि ब्रह्माणि योगयुक्तानि वै द्विजाः अयम् शिवात्मक प्रोक्तो वतारः परमाद्भुतः धूम्रवर्णकलशांश्च सर्वसिद्धिप्रदायकः चरित्रं शृणुयाद्यश्चेदिदं पठेद्यदानरः भुक्त्वा भोगान् स्वयं चान्दे गच्छेत् स्वानन्दकं पुरम् ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदी मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरि शिवात्मकता नाम दशमोध्याय ओ